नारदपुराणम् पूर्वार्थम् अध्यायं ट्वेण्टि त्रि सनक उवाच इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतं सर्वपापप्रशमनं सर्वकामफलप्रदम् ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम् मोक्षदं कुर्वतां भक्र्या विष्णो प्रियतरं द्विज एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणां कर्तव्यं सर्वधा विप्रविष्णुप्रीतिकरं जदः एकादश्यां न भुञ्जीदपक्षयोरुभयोपरि यो भुङ्गे सोऽत्र पापीयान् परत्र नरकं व्रजेद उपवासफलं लिप्सुर्जह्याद्भुक्ति चतुष्ठयम् को वा परदिने कत्रा रात्रं तु मध्यामे दिने यस्तु भोक्तुमिच्छति मानवः स भोक्तुं सर्वपापानिस्पृशया जोर्नसंशयः भवेद्दशम्यामेकाद्दी द्वादश एकादशी द्वादश्यां च मुनीश्वर एकादश्यां निराहारो यदि मुक्तिमभीप्सति यानि कानि जपानि ब्रह्महत्यादिकानि च अन्नमाश्रित्य तिष्ठन्ति तानि विप्रहरेश्वर एकादश्याराहारो यदि मुक्तिमीस या जहमहसादी का अन्न मेंश्रिंतिषंध जमुनी यदि मुक्मीसती महापादकयुक्तो वा युक्तो वा सर्वपादकैः एकादश्यां निराहार स्थित्वा याधिपरां गतिम् एकादशी महापुण्या विष्णोः प्रियतमातिथिः संसेव्या सर्वथा विप्रै संसारेदलिप्सुभिः दशम्यां प्रातरुद्धाय दन्तधावनपूर्वकं स्नापयेद्विधिवद्विष्णुं पूजयेत् प्रयतेन्द्रियः एकादश्यां निराहारो निगृहीतेन्द्रियो भवेद शयीदसन्निधौ विष्णोर्नारायणपरायणः एकादश्यां तथा स्नात्वा सम्पूज्य जनार्दनं गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुधीरयेद् एकादश्यां निराहार स्थित्वा द्याघम्परेहनि भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युद इमं मन्त्रं समुच्चाय देवदेवस्य च कृणः भक्तिभावेन तुष्टात्मा उपवासं समर्पयेद् देवस्य पुरदकुल्या जागरं नियतो हृदि गीतैर्वाद्यैश्च नृत्यैश्च पुराणश्रवणादिभिः तद प्रातः समुद्धाय द्वादशीदिवसे हृदि स्नात्वा च विधिवद्विष्णुं पूजयत् प्रयतेन्द्रियः पञ्चामृतेन संस्थाप्य एकादश्यां जनार्दनं द्वादश्यां पयसा विप्रहरिसाजोपाभ्यमश्नुते अज्ञानतिमिरान्धस्य व्रतेनानेन के शव प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव एवं विज्ञाप्य विप्रेन्द्रमाधवं सुसमाहितः ब्राह्मणान् भोज ये चक्रिया दद्या द्वौ दक्षिणां तथा ततस्व बन्धुभिस्सार्धं नारायणपरायणः कृद पञ्चमः यज्ञस्वयं भुञ्जीदवाग्यदः एवं यः प्रयथक् कुर्यात् पुण्यमेकादशी व्रतं सयाभिविष्णुभवनं पुनरावृत्तिदुर्लभम् उपवासव्रतपरोद्धर्मकार्यपरायणः चाण्डालान् पवितांश्चैव नेक्षेदपि कदाचन नास्तिकान् भिन्न मर्योदानिन्दकान् पिशूनांस्तधा उपवासव्रतपरो नालपे च कदाचन वृषली सुधिपोष्ठारं वृषली परिमेव च अयाज्ययाचकं चैव नालपे सर्वदा व्रती कुम्दाशिनं गायकं च तथा देवलकाशिनं विषजं काव्यकर्तारं देवद्विजविरोधिनं परान्नलोलुभं चैव परस्त्रीनिरधं तथा व्रतोपवासनिरधो वाङ्मातृणापि नार्चयेत् इत्येवमादिभिशुद्धो वशी सर्वभिधेरथः उपवासपरो भूत्वा परां सिद्धिमवान् पुयात् नास्ति गंगासमं तीर्थं नास्ति माद्र समो गुरुः नास्तु विष्णुसमं दैवं तपो नानशनात् नास्ति क्षमा सममादा नास्ति कीर्तिसमन्धनं नास्ति ज्ञानसमो लाभो न च धर्मसमः पिता न विवेकसमो बन्धुनैकादश्याः परं व्रतम् अत्राप्युदाहरं धीममितिहासं पुरातनं संवादं भद्रशीलस्य तत्पितुर्गालवस्य च पुरा हि गालवो नाम मुनिसत्यपरायणः उवास नर्मदातीरे चान्दो दान्तस्तपोनिधिः बहुवृक्षसमाकीर्णे गज भल्लुनिषेविते सिद्धचारणगन्धर्व यक्षविद्याधरान्विते कन्दमूलभलैपूर्णे मुनिवृन्दनिषेदिदे गाढवो नाम विप्रेन्द्रो निवासमकरोच्चिरं तस्या भवद्भद्रशील इति ख्यातसुतो वशी जातिस्मरो महाभागो नारायणपरायणः बालक्रीडनकालेऽपि भद्रशीलो महामतिः मृता च विष्णोः प्रतिमां कृत्वा पूजयदेक्षणम् वयस्यान् बोधये चापि विष्णुपूज्यो नरैः सदा एकादशीव्रतं चैव कर्तव्यमपि पण्डितैः एवं ते बोधितास्तेन शीर्षवोऽपि मुनीश्वर हरिं मृदैव निर्माय पृथक् सम्भूय वा मुदा अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः नमस्कुर्वन् भद्रमधिर्विष्णवे सर्वविष्णवे सर्वेषां जगदां स्वस्ति भूयादित्यब्रवीदिदं क्रीडाकाले मुहूर्तं वा मुहूर्तार्थमधापि वा एकादशीधिसङ्कल्प्य व्रतं यच्छति एवं सुचरितं दृष्ट्वा तनयं कालवो मुनिः अपृच्छद्वि स्मया विष्ठसमालिङ्ग्य तपोनिधिः कालव उवाच भद्रशीलमहाभाग भद्रशीलोऽसि सुव्रत चरितं मङ्गलं यत्ते योगिनामपि दुर्लभं हरिपूजापरो नित्यं सर्वभूतहितेरथः एकादशी व्रतपरो निषिद्धाचारवर्जिताः निर्द्वन्द्वो निर्ममः शान्दो हरिध्यानपरायणाः एवमेतादृशी बुद्धिकदं जातार्भकस्य ते विनापि महदां सेवां हरिभक्तिर्हि दुर्लभा स्वभावदो जनस्यास्य च कामकर्मसु प्रवर्तते मतिर्वत्सकथं ते लौकिकीकृतिः सत्संगेपि मनुष्याणां पूर्वपुण्याधिरेकदः जायते भगवद्भक्तिस्तदकं विस्मयं गतः पृच्छामि प्रीति मापन्नस्तद्भवान् वक्तुमर्हति भद्रशीलो मुनिश्रेष्ठ पित्रैवं सुविकल्पितैः जातिस्मरः सुकृदात्मा हृष्टप्रहसिदाननः स्वानभृतं यथा व्रदम् सर्वं पित्रेऽन्यवेदयद भद्रशील उवाच शृणु तादमुनिश्रेष्ठह्यनुभूतमया पुरा जातिस्मरत्वाज्जानामि यमेन परिभाषितम् एतच्छ्रुत्वा महाभागो गालवो विस्मयोऽन्वितः उवाच प्रीतिमापन्नो भद्रशीलं महामतिं गालव उवाच कस्त्वम्भूर्वमहाभाग किमुक्तं च य मेन ते कस्य वा केन वा खेदोत्तत्सर्वं भद्रशील उवाच अह मासम्पुरादादराजा सोमकुलोद्भवः धर्मकीर्तिरिधिख्यातो दत्तात्रेयेण शासितः नववर्षसहस्राणि महें कृमपालयम् अधर्माश्च तथा धर्मा मया तु बहव कृतः तद श्रिया प्रमतोऽहं बहुधर्ममकारिषं पाषण्डजनसंसर्गपाषण्डचरितो भवम् पुरार्जितानि पुन्यानि मया तु सुबहून्यपि पाषण्डैर्बाधितोऽहं तु वेदमार्गं समत्यजं मकाश्च सर्वे विध्वस्तकूढयुक्तिविदा मया अधर्मनिरदमां तु दृष्ट्वा महेशजा प्रजाः सदैव दुष्कृतं चक्रुः षष्ठांशस्तत्र मे भवद एवं पापसमाचारोऽव्यसनाभिरधः सदा मृगयाभिररथो भूत्वा ह्येकदा प्राविशं वनं ससैन्योऽहं वने तत्र हत्वा बहुविधान् मृगान् शोतृपरिवृद्धश्रान्दो रेवातीरमुपागमं रवितीक्ष्णातपक्लान्तो रे यां स्नानमाचरम् अदृष्टस्य ये अदृष्टस्य अैन्य एकाकी पीड्यमानः क्षुदा भृशं समेधास्तत्र ये के जेद्रेवातीरनिवासिनः एकादशीव्रतपरमया दृष्ट्वा निशामुखे निराहारश्च तत्राहमेकाकी तज्जनैः सह जागरम् कृतवां स्वापि सेनया रहितो निशि अध्वश्रमपरिश्रान्तः श्रुतिपासा प्रपीडितः तत्रैव जागरान्देहं सा तञ्चत्वमागतः ततोऽयमभटैर्भो महादंष्ट्रा भयङ्करैः अनेकक्लेशसम्पन्नमार्गेणात्तोऽयमान्तिकम् दंष्टाकरालवदनम् अवश्यं समवर्तिनम् अध कालीचित्रगुप्तमाहूये दमभाष्यद अस्य शिक्षाविधानं च यद्धावद्वत् पण्डित एव मुक्तश्चित्रगुप्तो धर्मराजेन सत्तमचिरं विचारयाम स पुनश्चेदमभाष्यद असौ पाप रथसत्यं तत्रापि धर्मप एकादश्यां निराहार सर्वपापैः प्रमुच्यते येषरेव तडे रम्ये निराहारो हरेर्दिने चागरं चोपवासं च कृत्वा निष्पापतां गतः यानि कानिच पापानि कृतानि सुबहूनि च सर्वाणि नष्टानि ह्युप वासप्रभाव धर्मराजश्चित्रगुप्तनधी मदा ननाम दण्डवद्भूमौ ममाग्रे सोऽनुकम्पितः पूजयाम मा स मां तत्र भक्तिभावेन धर्मराड ततश्च स्वभटान् सर्वान् धर्मराज उवाच शृणुध्वं मध्वजो दुदासितं वक्ष्याम्यनुत्तमम् धर्ममार्गरथा मार्त्यान्मानयध्वं ममान्तिकं ये विष्णुपूजनरथा प्रयता कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च नारायणाच्युतहरे शरणं भवेदि शान्ता वदन्ति सददं तरसा त्यजध्वं नारायणाच्युत जनार्दन कृष्णविष्णु पद्मेश पद्मजपितशिवशङ्करेदि नित्यं वदन्त्यखिलोकहिता प्रशान्ता दूरद्भटास्त्यजदातान् ममैषु शिक्षा नारायणार्पितकृदान् हरिभक्ति गजस्वाचारमार्गनिरधान् गुरुसेवकांश्च सत्पात्रदाननिरतांश्च सुदिनपालान् दुदास्त जध्वमनिशं हरिनामशक्तान् पाषण्ड सङ्गरहितान् द्विजभक्तिनिष्ठान् सत्सङ्ग लोलुपतरांश्च तथाधितेयान् शम्भौ हरौ च समबुद्धिमतस्तथैव दूदास्त्यजध्वपकारपराञ्जनानां ये वर्जिता हरिकदा मृदसेवनैश्च नारायणस्मृतिपरायणमानसैश्च विप्रेन्द्रपादजलसेजनदो प्रहृष्टां स्तान् पापिनो मम भाडा गृहमानयध्वम् ये मादृताद परिभर्सनशीलिनश्च लोकद्विशोहितजनाहितकर्मणश्च देवस्वलोभनिरताञ्जननाशकर्तृनत्रा नयध्वमपराधपरांश्च दुदाह एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं पर निन्दकं च ग्रामस्य नाश्यकरमुत्तमवैरयुक्तं दूधाः समानयद विप्रधनेषु लब्धम् ये विष्णुभक्तिविमुखा प्रणमन्दिनैव नारायणं हि शरणागतपालकं च विष्णुलयं च न हि यान्दिनरास्सुमूर्खास्तानानयध्वमधि पापरतान् प्रसाह्य एवं श्रुतं यदा तत्र यमेन परिभाषितं मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम् सत्कर्मानुतापेन सद्धर्मश्रवणेन च तत्रैव सर्वपानि निःशेषाणि गतानि मे पापशेषाद्विनिर्मुक्तं हरिः सारूप्यदां गदं सहस्रसूर्यसङ्कर्षं प्रणनाम यमश्च तं एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कडाः विश्वासं परमं च यमेन परिभाषिदे तदसम्पूज्य मां कालो विमान विमानशतसङ्कुलं सद्य सम्प्रेषयामास तद्विष्णो परमं पदम् विमानकोटिभिः सार्धं सर्वभोगसमन्विधैः कर्मण तेन विप्रर्शे विष्णुलोके मयोषितं कल्पकोटिसहस्राणि कल्पकोटिशतानि च स्थित्वा विष्णुपदं पश्चादिन्द्रलोकमुपगमम् तत्रापि सर्वभोगाढ्य सर्वदेवनमस्कृतः तावत्कालं दिवि स्थित्वा ततो भूमिमुपागतः अत्रापि विष्णुभक्तानां जातोहं भवतां कुले जातिस्मरत्वाड् जानामि सर्वमेदन्मुनीश्वर तस्माद् विष्णो अर्चनोद्योगं करोमि सः एकादशी एकादशीव्रतमिदमि दिनज्ञाधवान् पुरा जातिस्मृतिप्रभावेण तज्ज्ञातं साम्प्रतं मया अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदं एकादशीव्रतं भक्त्या कुर्वदां किमुद प्रभो तस्माच्चरिष्ये विप्रेन्द्र शुभमेकादशीव्रतम् विष्णुपूजां चाहरहः परमस्थानकाङ्क्षया एकादशीव्रतं यत्तु कुर्वन्ति श्रद्धया नराः येषां तु विष्णुभवनं परमानन्ददायकं एवं पुत्रभज श्रुत्वा सन्तुष्टो गालवो मुनिः अवापपरमं तुष्टिं मनसा चाधिघर्षिदः मज्जन्मसफलं जातं मद्दं पावनी पावनीकृतः यतस्त्वमद्गृहे जातो विष्णुभक्तिपरायणः यदि सन्तुष्टचित्तस्तु तस्य पुत्रस्य कर्मणां हरिपूजाविधानं च यथावत् समबोधयद इत्येतत् ते मुनिश्रेष्ठ यथावत् कथितं मया सङ्कोच विस्तराभ्यां च किमन्यच्छोदुमिच्छसि इति ब्रिकन्नारदिये पुराणे पूर्वभागे प्रथमपादे व्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशोऽध्यायः ओम